अथ एकोनत्रिंशदधिकद्विशततमोऽध्यायः वैशम्पाय न उवाच ततः प्रज्वलिते वह्नौ शार्गकास्ते सुदुःखिताः व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् निशम्य पुत्रकान् बालान् माता तेषां तपस्विनी जरिता शोकदुःखार्ता विललापसुदुःखिता जरितो वाच अयमग्निर्दहन् कक्षम् भीषणः जगत्सन्दीपयन् भीमो मम दुःखविवर्धनः इमे च मां कर्षयन्ति शिशवो मन्दचेतसः अबर्हाश्चरणैर्हीनाः पूर्वेषां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 छादयिष्यामि वो गात्रैः करिष्ये मरणं सः